भ्यताम् यद्वय माध्यञ्जिने सवलवृत्तमहलयन् माध्यञ्जिने सवलमले नृत्यम् जयमासेवज यजमाणस्य नित्यम् देवस्य वृत्तम् यज्वरमावख्याम् त्रेण मरुत्वदीया न गन्धास्तदोणम् प्राजाणात् चतुर्भात्रेण मरुत्पदीया गृत्यम् तदोनाम् प्रज्ञा एव शम्भायेन यजमानः भ्यादुर्जाय प्रहृषयम् मरुत्वदीया सुदेव प्रथमेन गच्छीयेनुभ्रम्बा हेतजमानस्तृते ीया सृदेव रक्तस्य वक्तधेन त्मानं तृतीयेनात्मत्वनावाय च बाणस्य कृत्यं ते जन्मत्वदीया प्राणमेव ृत्रगृहत्वान्यासु देवतास्वधियं माहेन्द्रो युच्यतमुत्थानमेव तैमानमुद्धर्यासु प्रजास्पति शुक्रभात्रेण ग्रन्थादि यजमानदेवत्यो ग्रीमाहेन्द्रो देवशुक्रोऽयं माहेन्द्रगुरुशुक्रभात्रेण ग्रन्थादि यजमान एव ते ज्योतधा अरिजपुत्रका भाभाेभ्यो ब्रह्मौ नमजस्तस्याेतु न दुस्तो धस्तते चत्वारः नित्या अजायम् तथा श्रीयमशत्थामन्यैरक्षे प्राशिश्यामेतो देवसे यातुं सौ जनिष्ठन् कविधा ै माण्डाण् समस्ति कृतेमयम् प्रणामहेयोषा जाता अस्माकं सयको सद्यो च प्रजायामुद्याः अस्माकम् स्वगाय पातिरतो विपत्मानायतस्य बाल्यम् एव यजेतदेवानां भोगाय भवति देवालये यज्ञा भुद्रमन्ताय प्रादित्यानन्ताक्रमजयत्रिदेवस्यान् प्रावत्यं ददान्न प्रतिप्रायच्छन्त पादेव मध्यं प्रबन्धं न प्रति प्रयच्छन्ति तान् त्रिदेवकेयज्यादित्यो दुर्ग्य दैदृक्षे सदायन्त ृक्ष्येभ्यर्ग्रन्धादिभाविधा भक्वस्थेवनम् मिथुनमुक्तम् गर्भो जलायुतदेवदम् मिथुनम् अशभोमा एते यदा निश्च्यवोर्धावीणात्योच्चमेव पशूनाम् मध्यतोधिता सङ्ख्ये न मेध्यत्वाय तव दाता पक्वन्तुरे अथ भोमा एते यदा निश्च ग्रन्धादिजलध्ये वा ृह्णानि वशभो यदा नित्य एतत्त्व रुद्रादेव पशोनन्देशवैवनस्तमकेतं परिषयावनादिवत्त्वानित्येतै पामकेत इत्याहनुभक्कं समेव नित्यपुं पमकेशेन समग्रिया दिव्या श्रेनामे विवृच्छिकामप्स्य श्रेयेया सृष्टिमेवावरम् जय यदि दाशत्पक्रम् जय स्वर्गः पञ्चम्यभ्याववर्गको मसादयच्छतन्नाध्ये प्रजा प्रजायम् जेना नवशटकरा कुर्यात् स्वक्रम् प्रजान्नवजयन्नभक्ताङ्गेक्षेक्षेक्कुरस्य प्रमादिवर्गात् सान्नान्वीक्ष्यः अम्पत्रमाणात्रयणाग्रह्णाय प्रजापजन्मायण प्रजाना यननादयश्च प्रजा प्रजागन्धेन प्रजा अन्त देवायत्येवदामपात्रे कदा विक्रमाक्रेणा ग्रन्हा जित्वा देवेन यो मे ग्रह्णादिष्टा जगुन्तव नव प्रयत्न संसेतवितारं साधस्त्ववनपादकं संसन्देयभवनमभिवर्यनयन्त भोजतुं सवनमुदयक्षनयस्तेयभवनेता विश्वाभिक्षे यत्वे सविषपात्रेण वैश्वदेवं कलदा ब्रह्मादि वैश्वदेव्यो वे प्रजालैश्वदेव कलशत्वविता प्रसमानामीवेष्टविषपात्रेण वैश्वदेवं कलदा जनप्रदस्थानयित्याप्रदेशिन् विग्रहे मनस्येभ्य क्रियते ब्रह्म जनप्रदेष्ठानीत्यामनस्य देवे प्रेम त्याहभ्य एव एतावृे देवताभ्यनेव सर्वाभ्या गृह्णा चेतदयो निर्गे कृत्वा जैवेद्यामयेष्वेव प्राणोदाय जयतु भागुण्डो यदु भागुषु पात्रेण प्रथमस्व समश्च प्राणमेवान प्रयम् प्राणो नाक्यन्त्य प्रजापधर्मात्रेण प्राणवपागुण्पत्ने प्रजाप्रयतु भागुण्पात्रेण पात्रे पदमाः क्रेणा ब्रह्माचिप्रजानाम् प्रजननाय स्मा प्रजा जायन्ते देवालायस्ते सुभर्गं लोकमजिगागं सन्ते सुवर्गं लोकं न प्राजानन्तरे संधरलोकेतुभर्गं लोकं प्राजानयुक्ताः त्रिवतो लिक्ष्ये सुवर्गश्च लोकस्य प्रज्ञाः एकतो भोराचेल्यमानश्चन्द्रं वज्यं यत्रा घन्तं निन्द्रियं भूतमगन्घ्रं तत् ौभस्य कृत्वाजायं भवेम्भैवात्मने त्वया प्रजलेन्दोयित्वा न्दो नगतय वदत्र भाषेन्द्रियायत्याः प्रजावायन्द्रियं प्रजाय नात्मे प्रदयचज्ञा पत्नी वैत्याहत्वायस्तरेनायुकोपेमप्रापत्यक्षन्तं प्रपन्न प्रयच्छन्ति तापा स्वच्छ यच्छाद्यप्रजा प्रजायम् नेना नवरक्वरो जगदनवर्यात् रुद्रम् प्रजा अन्वजेत्यन्नानुवयक्कुल्या जगानाम् समज्ञे सर्वम् भक्ष्येतभाग्व नवक्वरो जनरुद्रम् प्रजा अन्वसृजविधां समज्ञे स्वमम् भक्षयक्षज्ञेन्द्रेश्वनयस्तप्तस्मे मुदा मृगनाख्यानयश्च ख्या प्रजापेन प्रजाना व्यापौ भक्तवत्तयबेन च क्रोणभक्तवत्योणाभिरेण चित्यते न ज्योनपत्यै देवाभिनगोभक्त्यस विभेव मतो भवेदप्रजा प्रजायन्ते इन्द्राभद्रमहंसत्रशेषगपालमगौभ्यस्तत्रा जगदशात्सम् च जगच्छमञ्जयवाच्यालयन्नवाक्यालयज्ञ एतावधेन ृत्यं प्रहच्छे वृक्षे घातं प्रहेच्छ जव भुञ्जन् दौपलक्षयन्दम् भावयणं पजव भुञ्जन् दौलक्षयन्मनसाकं परसयम् चलदेवेन भजव भुञ्जं दौपलन्दवं नैशावम् जैशदेवदत्र भावे सत्वलेन्दलमुत्तरवे जपुत्तरम् प्रतिष्ठापयन्ति ग्रहाप्रजापदप्रजायन्तौ वा जाभयशुक्रामन्त्रिणग्रहाय ग्रभाग्रहण्यावाय च ग्रह भो यच्छागलक्षगच्छायत्र पागुषो हेण विग्रह्णाजनस्थात्रेण चामजा भूयते कलसा गृह्णेया श्रिता पुत्रम् क्षितौ मथावति तादृशे वदत्य कलसवदस्य राज्ञेणान् गृह्णेया पुत्र पिनम् क्षित मथावति तादृशेवदधात्मा यज्ञदाग्रेणो कलशो वा पदस्य राज्ञेणान् गृह्णीयात्मनेवान्यस्कवाचरि भोगाच्येन धा युग्येनज्ञातेन ब्रह्म प्रथम विपुलाः पाणे अहरम् इदप्राप्तिरञ्जातान् पराः सन्ध्यमाणं सियत्वयतावश्च आहता ग्रहणम् गन्धा मिलतावश्च आहत्यप्राभतादृगैवय अक्रामये मदस्य ै यज्ञस्तम् भायताम् सद्यतया सदृढम् वरस्तासया भाहि प्रायज्ञम् समनिष्ठानुपया मारिणा यज्ञश्च प्रत्यये न्यानि पात्रा नित्यं तेनान्यानि यानि पलायेनानि प्रयुज्यं देमुदेव लोकमभिलयति बलाय वश्च लोको यानि पुनःप्रयुज्यं दैवते लोकमभिलयति पुनः पुनर्वश्च लोकप्राण्यानिपात्रा नित्यं देनान्यानि यानि वलायिनानि प्रयुज्यं जैधान्यं गोरुदयक्पला भवन्ति यानि पुनः प्रयुज्यम् देतान्यं गोढदयपुमलाभवन्ति प्राण्यानिपात्राणि युज्यन्ते नाञ्ज्यानि यानि वराजेनाय प्रयुज्यन्ते काञ्जिवाहिन्या पशोरञ्ज्यमुपयन् धियानि पुनस्प्रयुज्यन्ते काञ्जिनग्राम्या पशो ग्रामपादयन् तिगो वे ग्रहाणां निदानं निदानवान्वत्याग्रमित्युक्तन्त ेर्ग्रहाणां निनं वे रत्र प्रदया मधुरं निधुनैर्ज्यागज स्थालेऽपि रै ग्रहा नित्यं देवायज्ञैरन्यतस्य ग्रहाणां निपुणय्य एवं वे रत्र प्रदया मधुरं निपुणैर्ज्यागेन्द्रापवेदः कल्याः तत्र आत्मन्नामन्नामिन्देशायत्म म् पुरोगादानि तत्मादनुभवनम् पुरोगादाम् प्रार्थेदात्मन् जयमारमणम् कुरु जयदे पञ्चिराः क्षेभे यज्ञक्षवान् तत्त्वमिति सानाक्षरम्भक्पुरोगायपयक्षापञ्चिराः स्वयक्षवान् तस्मान् यवानेतानि लोकायभूयम् प्रयुद्धाः प्रक्षान्तर्गमेवैनम् लोकङ्कमयति सौरेभ्यालक्षाम् राजववर्त्येम् लोकुम् समालभयचर्चाम् वर्गस्वलोकक्षा हेदिवङ्गकं हत्वारितुमर्जमेवण वा लोकमभ्येनेत्यालोकेणस्यागुरूपमध्ये धिरभिरन्येन सर्ववेदालिवशक्तित्या सर्वे विश्ववेदादेवक्तिनारिवशदेवेनादिवशैवायमश्चित्याहकामश्चयश्च पदायेत्याशाम् त्याहृदक्षयक्षिणा इत्याह सत्यं वायम् इत्याहैकवे सुरान् सत्त्वा देव्यन्तरे क्षमित्याह्यमेवन्द्रङ्कमयस्पदत्सेत्याह त्रागच्छता मधुमते हृन्नन्दनारेव अर्गत्य लोकस्यामेव ब्रह्मणे ददाेददाच्यात्मा त्यस्य दक्षिणा वित्तमर्जयते अवित्रयुषजुहोरि यक्षप्रदमश्चे यद्वै यज्ञश्च क्रोध यद्वै संक्षे नियन्नात्येव जुभो दिनवे मृदे प्रां वितो यावानेव यक्षं प्रेणाधितप्रक्रियादित्वेन लोकाजिमानेव लोकायन्त्रेणादित्य यज्ञङ्गक्षयजिङ्गक्षे यज्ञमदिहमय कृत्वायिङ्गत्योन्दमयत्यो यज्ञमदेव नवैत्या हैदवादेव यज्ञन्ददायस्तो हाच्चो देवभागम् आत्मो यानिनो देयोम् स्यामया भावायितुम् वित्त्वा गादमितेष्ठापयमानस्यामया भावाय अवदृथो गुण्डिनौ लिखदेवाग्नमेकहाय नादेन कलोशदेवदैरमयदे कोपप्रथमदेक्षादेवर्णमवैदेव त्वनापात्यो रक्षादूतून्ति प्रतोक्षसर्वेचनैत्यै विनयत्येव लोकेभ्यो रक्षाकृत्यवहन्ति पुनः पुरुषोधनमै त्येन क्षामहत्या गुरुगोभिराजामरणस्थेत्याः प्रदेशेन्द्रजं हृदयस्तहस्वैत्याहे मास्त्वभित्रिमवरणधेत्याहमरणभागाभिनिष्टज व्याहुदेभान् प्रदेश्रेत्यावलेण प्रयाजा निरभिप्रजा मे वरे प्रजायेव वरणन्वच्छाच्च भागौ यज नित्यैव ेवेणं मुञ्जत्यज्ञे वर्णयोेन वर्णपाशान् मुञ्जत्यवर्य रामनो याजो वर्षप्रजा एव वर्णपाशान्मुञ्चरिमप्रजावनो याजो रक्तं वज्यं जय जग्लवश्यवक्षमपुणैत्यायमेव वर्णमवैजदेव समुद्रय देवरित्यारो त्याहाीलापने यथा भगवान् ग्रन्थे याद्यन्नभक्तये च मधुद्राह्ने अम्बरणागन्धेना तु भक्ष्वधुनान् अम्बरणागन्धा वर्णस्य कारञ्चेत्या <Sess> ञ्जयसाक्षैत्यं सर्वेणयाच्चमैत्यं चेच्छा पुनसंयतां विककामस्य गतसंयतां मनश्च लोककामस्य यदा संविदािन्दयकामस्य यैत्रयो मध्यमास्तां समान् भजुकामध्यैतानुवानुपचव उपनिष्ठञ्जयजुमानैपन् भज एवं वजुदर्विजं कामजेन जलिघटमिदं चागृष्टनाद्यं वरिगच्छमध्वीजागुरुतमेतश्चैवं विनादितावीयते दक्षिणाघ्यं वरिगच्छं विलयात्मजकामत्या धीजागुरुतमाक्रमणदेव यतमा योगे द्वैरधने परिशोद्वेषा रेन्दने गन्नैता गुणौर्योपया परिग्रेश भोपदेन्दशयङ्कामये तत्रश्च जायते कृपान्ते तस्य कृतिर्भयत्ये वाश्च जागते अयं कामये सुमानश्च जायते शान्तं तस्य प्रवेष्टये पुमाने वाश्च जागते पुरावे क्षिणमानयन्तां देवा उपशयदेवापामसन्धुरुपदे लोपशयच्छिनदमुपशय उपदे नामनकेतुवान्येनोभा पसुपन्तोपदेवा मनुक्तप्रजमानपदोजन्मय विषयदार्थे पदुत्रित्यन्द्रामस्यै पसुनित्रो या ्यान् प्रजा प्रजायादेशोऽ कला विरागन्नं विराजिरा दैवान्नाद्यमवरुं देवाय दैवान्त्योरायदेके कादृशेतेष्मरा पुरस्ताञ्जै यक्षकम् सम्पद्य भवदम् विनाय यच्छाया गजापयप्रजामन्यतागैकादशप्रयावेयञ्जयम् एव्यमात्मन्नभटप्रजाय वसनुजे भगदेवैकादशदेवत्या्रियम् आत्मं भट्टे त्वेनाजमेक भवत्याभव ब्रह्म वैदेव ब्रह्मदेवात्मै प्रजाप्रजलैवेश्वदेवोभवैश्वरेव्यो वै प्रजा प्रजादेवाय प्रजलीन्द्रियदेवै तेनावलम्भ्य विधम्मासे नेण प्रधवायुवायित्वा निरवरणमध्यत ऐन्द्रमान पदे मध्यतमाणे तथा निरस्तादेवन्द्रत्वमानफलश्वम् पुरस्ताः तस्मात् पुरस्तान्नमज्यत ऐन्द्रमालभ्यमारुतमानवदेवात्मानुमध्वादिगिरिकामले भ योगतत्वोपलुभ्यता योपलब्धत्वगच्छत्कृत्येन्द्रस्य लोके वारुणमानभेदवारुणस्य लोक ऐन्द्रेण देवावगतत्वोपलुध्यते गोपलुद्धोपगच्छ देव कामले तत्प्रजामुख्ये गिरि हतोकान्मारुणमालभेदप्रजावरुणो विन्देय्या चक्षि हत पुलन्त्यमानभजयमा हतोकाम् प्रजानामवर्णग्राहाय पत्ययामनुवयाम्बर्यज्ञगता मनुजया मनुराध्याकृर्यज्ञगतम् पात्येवदमुत्थुजया नैव मनुरुध्यमाध्वातामेव यदमानरुज्ज्वोलयज्ञस्य वा प्रतिष्ठिता यज्ञः परा भवते यज्ञं परा भवन्तैयनबालानपरा भवति यदाज्ञैर पात्येव न गच्छावैर्यज्ञस्य प्रतिष्ठे यज्ञम् प्रयच्छन्तैयनबालानप्रतिष्ठयेत्तं मतया प्रजलेखरेण प्रजलक्षतो ग्रन्थिमादे तत्त्वमय्यकविषम्बन्ध्यौम्या भवदेशानुस्तरे ग्रन्थितादृशेवदच्छतुस्तरः देवा देवाजिभयाजेवणामेव दृणाञ्चित्वायामेव्या हन्ति कामदेवताम् वक्तुमृतम् विरदेशे सौम्याः आत्मानमेव वयम् लेह आत्मानन्दवयवश्च विधामश्चाधिकृतिम् कृत्वा गृहे क्षेदम् वयमजत्य आत्मानमेव वयजेनो गतमनाश्चास्ेवनपराजमल्यस्वा मे अपरागतम् ज्ञाशोदयसद्वयमत्त्वानुधारणामीर्गमनेवन्दाधारणगतमनाभवत्यज्ञस्तावते जानादरे भव्याः ज्ञानेष्णं यच्चाजस्यैतज्ञानिश्च यज्ञो देवताश्चैव यज्ञञ्चदाधारो बाहु जगजयत्ताय ब्रह्मपादिना वदन् जगिष्णो यज्ञस्यैव देवनौ तलेश्वदरे यज्ञक्व यजमानो भवतीयम् येः त्वरावरुणेयं भजा मानवैद्य गौसमयतिवरुणे अतिरिच्छण्डाक्षिवाक्षिणवा नोजभावेलाङ्गे पौर्वं प्रभिन्नं चैव वित्तादेश्यं प्रभृन्द्वो यन्मेः तुरुणेयं भजा मानव्या एव प्रभिन्नाय भक्ष्म्यमन्तभातजा निवा एतच्छामं द्विगी जागच्छायर्वोयच्छायन्नेः तु शा मानस एषन् राजस्यैव पुनः त्रेणा गजा प्रजामत्साया भवषण्डसेव रसन्दे इन्द्रियम् वेर्याः अव्यभयन्तद्राख्याभवन्तरिद्राख्या नाम निद्राच्यत्वञतरिद्राच्यान्द्रियैर्यजमानः दृशमेन्द्रेण ब्रह्मश्चेणोपस्त्राच्याः चक्रे वृद्धायत्रयन्धेन यज्ञम् वृक्षालगोधे गुरुवृक्ष गृन्धीणा सत्यञ्चम् यज्ञवदेशायज्ञस्त्रे व्यत्राय प्रयासेवनिराशत्रप्रिया समोरपञ्चसत्राख्यावन्विद्र यज्ञैत्याय पुराख्यान्द्रोदे गृहे गव्यायज्ञलमुक्ताय देवतारे ैः सन्तानव्यावृतमगच्छन्त देवादेश एतान्द्रहाणवत्यन्तानगन्धदाज्ञेय वैश्वम् भौर्यगुप्पौस्तदोगैतेरन्न्याभिर्देवदाभिज्ञामृतमगच्छ मेवम् विदुरेव ग्रहायक्षन्द्रे ज्यावृतमेव परात्मना भ्राजुर्यैलगच्छ देवे लोका ज्योतिपन्तः समानदेव्या आश्यायत्यावदा ज्ञेदेदात्यम् लोके ोजधत्र ऐन्द्रेणान्तरिक्षगन्द्रपादौ हैलौ सौर्येनामग्मन्तोऽस्माभिमे लोकाः भवन्ति समानुे ज्ञानेनाम् कुरुदयेतायुरे ग्रहाणाम्भाविश्व वैध्यदिमे लोकात्परागकारुवाचर्यस्येवं विदुलेन्दे स्थामे लोकात्परागस्कारु I'm just a bandit. देवालयज्ञे पुनरपुर्वनते देवानाः धेतन्नामण्पुवनाय समुत्थापयन्तो देवाभवन्पदातु नायश्चैवं यदुदरात्यात्मनामनाः स्यभ्राजनय भवदाः भादाभ्यत्रयेवं वैदुभ्राच्च प्रातैहं भ्रातव्यच्चैवादे प्रजापते प्रतिभोक्षणेन ग्रन्थाचितुमुक्ताधिपात्मा ग्रन्थाते एवं मे लक्षन्ति माने सत्त्व वै जलविलम्बन्ति सोमे हस्यमाने हन्यते यज्ञे विलमानो वदन्ति किं तथ्यज्ञे विलमानत्वलये ग्रहो मारेणादिवन्तमेवेन गुरुम् ैवायलक्ष्यञ्चम् जैनसाहाय्यस्थापयम् च गुरुष्गमवेक्यस्तम् प्रत्यये हुप्रधानगण्ठतम् प्रजापति रघुशमश्चैव प्रजापति प्रजापतेनायर्वाहुलम्बयुर्चावत्प्रत्य भवयतनं वेदायतनवान् ख्यिलामदत्वारता गायमाना बृह्माय गायतमाने भवर्यं संणं नाश्रयेभ्यान् अध्यैताध्वर्यमानाय शैमत्सरेणा श्रीवारण्यमुर्गलं वे हिरण्यमायत्राय श्रीलामतमभिय पुरसहेन्द्रियाय ay यज्ञाञ्जां षोडशमात्मानभृक्षिरस्तत् षोडश्च सपन्नवेषोडशे नाम यज्ञापषोडशक्तिगं षोडशगुं सत्रं चैषोडशे सत्सोडजलोडश्यक्षोडशी विक्षल इन्द्रियमेव दधेर्यं यजमान आत्मन्धैवेशोषपोनत्र प्राच्छायन्द्रे देवाना वा प्रजापतिवपा वेदौढायच्छमग्रन्थे तो देवं देवतानां पर्यें मृदुष्ोढे वृक्षतेभ्यमेव समाना पर्ये ग्रन्थादिवच्र ीवज्रलज्ञत्वाग्रन्धा जतमहासुकामस्य गृह्णेया सद्रोवेशो रजीस्तैकीडमनात्तो नवीया प्रजाले मजो पुत्रागृह्णीया प्रजामजो अस्य हैराच्च रसुकामस्य ग्रन्थे गाद्र ेवलयक्षप्रज्ञौवेदान्धीरा गोहिराजं ज्यो हृदेवान्धरे वा श्रीमध्यन्धा जगे भोच्चे निरुहच्चैकधिकं शक्यम्भवत्सश्चेन्धायागच्छ देवताः कनीयता चन्द्रजा यत्कन् वा विज्ञजकं सन्तसौ वेदेवञ्जनयः कनीयता चन्द्रज्या यत्कं वा विरजगं सातुर्यकं वञ्च अक्षराङ्कृतिरिजयन्ति चत्वारि तवशो नैकानि चत्वारि पूर्वाञ्जपयङ्करयन्ति सत्पदेववशो नवृन्धे वासवजाविषोडशिनः दो स्वोत्सवपाकः शबकाण्डप्रारम्भः ओ जनसंज्योतिरज्यदेवताधाञ्ज्योषलिराच्छन्दधाञ्जोषलिराौ सन्त्यस्थे विराजमभिसम्पद्यते तस्मात् ज्योतिरुत्येव यथानश्चापानश्च द्वौ माध्यन्य यथा रक्षश्च श्रोत्रम् च दौषणैकथा वाच्यप्रतिष्ठाय पुरुडसं वा ोर्यङ्कामङ्कामयते समेधाभ्यस्तुते सर्वज्ञ चक्षोरिणां श्यस्तु अज्ञश्रोलेन वैत् प्रजापति प्रजा अधराज्ञोलेनैव पर्यगृह्णां परिगृहीता नामश्व भराच्चप्रवचनस्याधारे साध्यर्थेण्यमास्ते आहो रमास आहो ोढे गण्यमाचरितस्मादभ्यक्ताय प्रजा गण्यमाचरितस्मादश्व प्रजाय रात्रे दाहिलस्मागत्र सर्वे तदेव सहत्रैवावगत्रौ लिख्यात्मय एवं यज्ञानज्ञे कामे ने राजादा प्रजा जयति वलि प्रजादानन्दाभिरस्मादायज्ञ जयस्य जैनाग्रे प्रजापजयगामये कजे धनमय देवनान्वर्जनकारे श्री छन्दोन्दरगुधामद्राम्बरा मनुष्याणां वदप्पतोनान्तस्था जयमुक्षापदा चतुर्थ्यन्तार्दबाहुत्यां पञ्चदशञ्जनमे गतमिन्द्र देवतान्वर्जनप्रन्दो गृहला गञ्जा मनुष्याणां गृहपतोनान्तस्था च ृत्यन्तमध्यप्तन्वधृत्यन्त जगति सञ्जनमय लोकं सा मयेष्णुष्याणां श्यामप्रदोढाञ्चात्राणां प्रोजागुं सोऽ भोजि देवता अन्वृत्यन्तरे कलिपुंसञ्जनछन्दान्वज वैरायुं राम प्राणादे प्रवलभ्यमाना पञ्च प्रजापरिः सप्तविवंशरे तस्मिन् वायते तस्मिन् परिक्षिताय एवं वेदे तस्मिन् नैव एतस्मिन् प्रजुखरेकायक्षैकचन्द्रदा क्रवटे स्वामायज्ञोपितरेव क्रवता ब्रह्मकजेन पञ्च प्रदाग्यौरदेव पञ्चरजेन रक्तप्रदाग्यौल तरदेव नरसेन प्राजावत्तेन प्रचलनेनैक विभंसागज्यौज शरदेव मदेव तत् स्वामान ज्यो च लभते यथो स्तोमदेव स्वमभिस्तवन्तो वे स्तोभावन्त कामास्तावन्तो लोकास्तावम् सिज्योतेतावदेव सोमानेतावत कामानेतावतो लोकानेतावन्तिोटेकर्ववृन्दरे ब्रह्मवाद न वदन्ति सत्त्वराज्य सोमे लेदमानो सर्वस्थमे लेजो यश्चर्य प्राणायस्तस्याञ्चरन्ति प्राणे सुमेक्ष्य सरि भावे यज्ञ लैलमानो विषदे यञ्चर्षं करयन्ति वेद्यं तस्याञ्चर्यन्ति वेव्यमेक्ष्य सरि भगवैज्ञ लैलमानो विषदे यश्चयन्ति त्वजां तस्यान्तर्यन्ते फलायां नेक्ष्य दले नो एकदेशैकपुरुषमन्तर्यन्त्युप्रतिष्ठान्तस्यान्तर्गन्त्युप्रतिष्ठायां यैक्रि भवे येन गिलमानो एकदेशश्चक्र नवमन्तर्यन्तदोगस्य तत्र नक्षत्रियाञ्च विराजमन्तर्यन्तदुर्वैकं नक्षत्रिरायाञ्च विराजेति फल्वे येन गिलमानो एकदेयक्षत्रियं पुरुषमन्तर्जन्तिदेवतास्तन्तर्गन्तदेवता भवेत्र हरिफलवे य दैव होमानामम् परमराय गच्छन्तम् वेदवरमनामेव गच्छमस्तमत्परमो जम् वेदवरमनामयगच्छ तो रै सक्रमासते सुवर्गम् लवकमायम् तेषागम् हविष्माविश्च हविष्णुश्चाहीयेतां चावकामयेतागुम् सुवर्गम् लवकविहारे विकारे सन्धिहात्रमपश्चताम् समाहरताञ्चेना इजेतां ततोदयितौ सुवर्गम् लवकमयिताम्य एवम् विद्वान् विहात्रेण इदते सुवर्गमेव लवकमे विकारयिताम् पूर्वेण ह्मागच्छतामुत्तरेणाभित्तोगमः भवति गजरुत्तरम् ज्योदिष्टोमोद्यिष्टोमः भवति हेदृष्टेनावम् हे सर्वस्त्वमोदिहात्र उत्तरगुरु सर्वस्याख्ये सर्वस्यावर्ध्वे गायत्रम् पूर्वेण सामभवचेदो वेगायत्येकायत्रेभ्यम् भवस्तदशेवभ्यम् भवस्ततमात्मन्धश्चेच्छेस्तभमस्तरभोजो वेदैर्यम् दृष्टगोचदेव वैर्यमात्मन्धच्छेदम् परम् पार्व सामपदीयम् वेव सन्दरमस्यामेव प्रियतिष्ठदृष्टयसौ वै विहरमुष्यामेव प्रयतिष्ठक्तजगेता विष्टुच्चैशासम् पूर्वे हा भवति समश्च जगतेन विष्टुभोसा पर्यस्तमानेन समाधे जाताप्यतरस्यान्ध्रवेर्यमनुमध्ये माश्चाम्पो गमः भवत्युत्तरस्कृत्तरम् नारवाभ्रमाशयो भवतो नानावेर्यै भवतो हरिष्कण्धनम् पो गमः भवति हरिष्कृण्धनमुत्तरम् प्रदेशित्यै आपो मालिनमग्रेसमाधेत्तस्मिन् प्रजापर्वायुर्भवत् साजरक्षि मामपश्चां बलाभो भवत्साहरं विश्वगन्मा भवताप्तैरुतं तस्यामत्रां यत् प्रजापतिस्तदेवादराभो दुर्गायामित्यान्ते देवा प्रजापतिमगृभं प्रजायामः ृक्षयवन्तपथनविक्षद्वजितरेभ्यो मायक्षदेश्रां जगे ऋषे नायदनेनाश्रां यञ्च संवत्सरगे गाङ्गाजन्तं मधुभ्यो रुद्रेऽध्यारित्यभ्यक्तायच्छन् नैता गौ रक्षद्भ्यां मधुमोरुद्यारित्या मधुभ्यो रुद्रेभ्यारित्यभ्यक् प्राय दत्रे कौशलं चैव सहस्रं भगवन्वयादिगत्य मल्ल कवय गन्तच्छादुष्टमुखेन गे अन्तरिक्षमलयन्तच्छादुस्तयणादित्यादयादिगत्य मल्ल कमलयन्तच्छादुस्तदन्तरिक्षं चेदस्मा कृघातु ितम्बैव धनो हस्तिरात्रेष्वहनश्चान्धराज्यम् भव ज्ञानादिभोक्तादिशकम् परिषोदौ शकौ सत्यम्भो सच्चाधिकम् भावाहितस्मार्चिता सत्याज्ञोमेव प्रभवनहस्ताोताेषाम् लोकानाम् विसृत्यै त्रीणि त्रीणि शतान्योके राहमग्रविच्छिन्नादि न्यच्छयानस्तस्यामिन्द्रस्य विस्तृष्टव्यायश्चेतां तयुञ्जमन्यकामाहिदं व्यक्तशास्त्रं वर्षस्यामगान् विभागेन्द्रस्तद्वा यथाज्ञणाश्च सदपिताम्बा ये सामश्चाभाग एव शतं सत्य धयालहस्रेधाः व्यनिरित्य भवतास्तवेसहुर्णेत्रैले गेत्रे सा वा एकागणस्तस्यादिवण्डे सत्य चामसाहु सर्वे ह्यस्तरस्यै प्रसाहृदा गच्छा सा वृदञ्जले नित्यसाहु ब्रह्मलेखा लेगे पृथ्वीभागम् ब्रह्मलेखमस्मीष ऐन्द्रो वये ब्रह्मा वै समोत्य ेषामित्यशार्या कल्याणे बहु लोपासादेवेगेत्यशा्याद्यलोपाधगे नेतादेवेगेति सहस्रस्य वर्गे एतद्वा एतत्सहस्रस्याज्ञौ सहस्रग्रोक्रिया सहस्रम् दक्षिणा सहस्रम् दिनत्ववर्गा राजत्ववर्गस्य राजस्याभिहित्यै समरै दशत्रवरेण दक्लेनतां तैलत्तो वोन यागश्चत्तारो प्रदेष्टमेत्रापिच्छकुहि ोसागम्भयमयेकस्याम् वीर्यम् पर्यवश्च वियम् माश्च सहस्रश्च वैर्यम् यथत्यैकथावद्रवे दियम् ममाश्वेतद्यमयोदपितामप्रोसागम् सद्वे एतस्याः देवर्यम् पर्यपश्यामागुम् समाहरामः इति तस्यामयुम् समाहरम् ददाभक्तोप्रालेशयान् सोमायोधेः पिता नो कृत्वा क्षेत्रयौ स्वबोले तस्मा द्रोहिण्यापिङ्गलैकहायञ्या स्वमन्त्रिणीहाध्येवं विद्वान् द्रोहिण्यापिङ्गलैकहायज्ञास्व मन्त्रेणादित्रयस्त्रिगुंसदा चैवाश्चत्रभिक्षते सर्वेतो भव सुक्रीतेन यजदेतामुक्तप्रादयन् लिन्द्रायोज स्वारोहिणी लक्ष्मणापष्ठौ हैवाघ्ने लोकम् कृत्वा क्षयत्रिगुंसदा चक्रभिक्षते स्वबोधयत्तस्मः ेव लक्ष्मणाम् पक्षोहेम् भार्तघ्येन्द्रद्यार्थं विद्वाजेव लक्ष्मणाम् पक्षभ्येम्येन्दरायत्रयत्रयो रक्षैवा चत्वेन शदासप्तापवदि नामसुत्रादेशेन यमायोजे हे महा जगते मोर्खा तज्जघन्यारोहं कृत्वा यत्रिगुन्तरायत्रहि हदे स्मरे तस्मात् जगते मोर्खा तज्जघन्यामनुस्तरणे कुरु एवं विद्राञ्जले मूर्खान्तजघ्यामनस्तरी सेक्षेत्रिगुण्डैवास्य वरः सहस्रमस्य सा दत्ता भवस्मात् सर्वनः प्रतिगृष्टाहि वरः सहस्रमस्य प्रतिगृहीतम् भवति यम्बिब्रोजाञ्याम् ब्रोजाभियम् मेघाः शरस्सहश्रमस्प्रतिगृहीतम् भवत्युभयदगेण ञ्जकरे सहस्रं वरस्ता चल्याने स्वधादे वरस्तमध्यैतामुत्तरेणे परिधाने ग्राहवने यच्छा द्रौ सम्रा वेताकाशं लक्ष्य उदापयस्तदृशं चिन्दव समुद्रं वजन्धव स्वाहस्राभर प्रजया वरुभिहमानुगता द्रे प्रजया जान्तान्धुभुजा इन्द्रश्च विश्वरवस्तु चेतान् प्रेधाकहस्रं विगलैरयथा विचेता भक्त्रं वैतास्त्रे नयुलाहस्त्रे वयमेना ैवीहाम्बात्राज लोकानि प्रोज लोके समध्योक्तायकम् नमाजप्रेरम् देजे बलस्पतिक्रेय हिवय विश्रे कार्यके अध्यय नामानि सुकृतम् माश्रणे सुयेन मावेष्टङ्गेन देवाबुध्यन्दे महत्त्वद्यामेषर्गं लोकमे विधैनकं सुवर्गं लोकङ्गमयदिभामासुवर्गं लोकङ्गभेत्या हसुवर्गमेवेन लोकङ्गमयदिभाज्योयत्वन्दं लोकङ्गभयेत्या हज्यो यन्तमेवेन लोकङ्गमयदिभान् पुण्याः लोकाङ्कमयेत्या हलवानेवैनं पुण्याः लोकाङ्कमयदिशाः प्रतिष्ठाङ्कमयप्रजलः पुनद्वान् ै प्रजेन मधुभेदैलां बलिष्ठामयति प्रजाभान् प्रशुवान् नवदिैः सेवा ब्रह्मदेवा भवत्रैवत्रे वा नद्या सहस्रमकृता दत्ता भवति सहस्रमस्य प्रतिघेदम् भवति यत्ता पविद्वान् परिगन्धा जताम् प्रतिगन्धे राजेका विरहस्यमेकान्ता भूतान् परिगन्धा विरहस्तमेका भूता विषमासहस्रविच्यैकामेगन्धादिनसहस्रैकेवम् वेदस्यो नासुदेवो नामाविषकृषदामा विषदेवा माविषयत्याहत्योलिङ्गेन गौ सुरदासुसेवा भूचारिषरेणकौ याच्य ब्रह्मपादिना परञ्च सहस्रकौ सहस्रतम्यम् भे सहस्रतमेकौ सहस्रा विधेयत्रादेशे मत्रजय तास्त्रगौ सास्त्रम्यं विहास्त्रमप्रज्ञात्रगौ सुवर्गम् लौकम्यप्रजानीघा प्रदे मत्र जलितागौ शास्त्रमनुपरिगानस्तदेशास्पजातेषु अर्गम् लौकमे देतमानमभृत्वरिक्षिप्ते राष्ट्रम् प्रचारणमुत्समानीयप्रसमाचरमाङ्गक्षते त्रिदलरागौर्वाय प्रजाम् वत्रगामाय सलेशामामञ्जकुवेयशिखलो जातया मासगैतञ्च लोदाहरचयनाय ततो एनस्य चत्वारो गीराजायन्तः दासोरोग्रास्त्र यस्तुदय योग एवम् विद्वागश्चीराजायन्देतोः दासोरोग्रादास्त्र योगे च कल् विघुशा तोभाेशाय व्यञ्जमानन्दीर्याणि नैवेन्द्रियं ब्रह्मवश्चेतागच्छतुरः को भान् प्रदानवश्यतानाहरक्षैरेनानन्देन्द्रियं विजये गच्छतुरः कष्टो भान् प्रमानाह ेव प्रथमे नाम जयम् दिनम् विषये फलक्षदम् प्रकीरेनानन्दात्यन्तर्धमालभ्यापि कमलक्षकृच्चिनामस्करोधात्रेणाहितान् बोधायम् नपुष्यस्ततोषामलक्षितो सञ्जानाचेतामेव बोधान्वस्के एवम् विद्वागश्चतोधात्रे एजते पुरोढाशून्यवसुतो भवन्ति वशभवै पुरोदाश पशो नेवावलुधेन् धं पुरोदाशोऽन्यमेवावलुन्धेन् नाटः पशुलान्धवी एवम् विद्वागश्चतोधात्रे एषते इदमेकः ज्येष्ठो नांसेदं पञ्चः क्रमपश्यत्तमाहत्यो वेदोरसृदेवन् पञ्चरात्रय इदय प्रैमजागते च दमस्थितामभ्यावत्तरं पञ्चहा क्रमपश्यन्तहरन्तेना इदं दो वेदय ध्यावत्तन्तं विद्वान् पञ्चरात्रय इदेव विवात्महायनावस्तदे भारद ै जयको कामेदवसुमान् कामिष एकं पञ्चरात्रमाः चैनायदमेश्रम् भजोन् प्राप्नोद्र एवं निर्वान् पञ्चरात्रे नैतजयश्वसहस्रं भजोना प्रवाहनय कामेधभाष प्रवचिता स्वामिजत एवं पञ्चरात्रमाः चैनायदमेतभाष प्रवचिता भवत्य एवं निद्रान् पञ्चरात्रे त्याहशतो रात्रौ नैकषड्रात्रो फलेतदम् प्रदेशो नैकञ्च रात्रौ फलकेन्द्रियमेव जागरे वञ्चमाफलिप्रज देवात्यै महाबलवानन्नाध्यक्त्यावलब्ध्ये प्रयत्रभक्ष्पादि रात्रो भव निश्चाभिनित्यै एवम् इद्धनामशक्को बालिविलसेभ्यानमापभोवस्य रामञ्जीमानमङ्गे अभिधानादिगन्तासत्ताभिन्धये पादयम् सप्तसलम् गच्छ स्वाहा गतव्याच्यन्ताभिनो धत्ताभिः कष्टे त्वाक्षयवायपाथये त्वाकोषाय प्राप्ये पान्तरिक्षायत्वाभिलय प्रापय स्वाभिपाध्यक्तौषेभ्यपाविश्वेभ्यत्वा भूतेभ्यः मात्रा क्रो पित्रास्व जनगो क्षत्यो जनः कर्म सप्त दिवसा च नाम चारित्राणाम् पत्मान् विक्षे स्वाहा प्रजापलगे स्वाहाभ्यत्माः सर्वाः भ्रवदेवताः हे ह्यक्त्वा हे हित्वारिष्टा भोजयम् देवे भा क्लोक्षिणम् आया यस्पा प्राणा यस्पा धामा यस्पा धुलयस्पा सुखायस्पा सुखनायस्पा पनयतायस्पा पनयतायस्पा वञ्जदेस्पा वञ्जदेस्पा जायतेस्पा प्रिनेस्पा रवतेस्पा अदेस्पा गोमयस्पा वनवे य स्वाहा दरित्र ताः गृहप्रक्षे स्वाहेन्द्राय स्वाहा गृहपद स्वाहा मित्राय वरुणाय स्वाहा सर्वत्रे स्वाहारिक्षाय स्वाहा स्वाहा सूर्य स्वाहा दन्तभजय स्वाहा लक्षे भ स्वाहा के स्वाहा दक्षिणा निर्भे स्वाहा प्रेर्जय स्वाहो दीचे स्वाहोर्जय स्वाहा लिखत्वाहान्तरि स्वाहा भवाहा दद्धत्वा यजमानः समाजे भस्मावहेः यज्त्वा उपलब्धिः हम्म चढ़ायत्तः हलवक्त्रेत्स्वाः एकेत्पाववायत्तः ऋक्तेत्स्वाः महरत्त्वक्तेत्स्वाः भूतेत्स्वाः प्रेतत्स्वाः नमोदर्त्स्वाः भगवतेः महावित्रायत्स्वाः अवनायत्स्वाः सर्वस्मैस्वाः हे स्वाहा स्वाहे स्वाहाजह स्वाहा तुक्ते स्वाहा सह स्वाहे सह रोगाय स्वाहा रिवाय स्वाहा शीताय स्वाहा दपायत्स्वाहा न्याय स्वाहा वर्जाय स्वाहा लोकाय स्वाहा सर्वस्थे स्वाहा देवानाकर्म नाम दत्तस्य मत्या सुयागालत्वेन मच्छन्दसायवद्यो वृन्तेन तत्सना हविलादेक्षया वृद्धेभद्देवज्जैवतयाछन्दसायज्ञेत्वेन तत्सना हविलादेक्षया ज्ञानित्येभ्येवेभेवदयाथागतेन त्वाशन्दसायज्ञाभित्तना अविलादेक्षया विश्वेभ्येवदयानप्र ेन प्राचन्दगायनरदाः सत्वना हमिदापेक्षगाम्यन्दिराभिर्देवैभृदैवतगाम् तेन प्राचन्दगायवर्ज हेमन्तराद्याः सप्तना हविदापेक्षगान्यामलवदश्च पत्नी गायत्रेण चन्द्र ब्रह्मणा शक्तौ सत्यै भागम् सत्यमतेभा महेमोद उत्तमम निहसिरिसवाहे नमिसवाहे नमजसवाहे नमजसवाहे किंकारयसवाहे कृदाइसवाहे क्रुन्दरेस्वाहे प्रोसरेस्वाहे प्रप्रवरेस्वाहे गंधायस्वाहे नरायस्वाहे कारायस्वाहे ज्ञानाय स्वाहा पानाय स्वाहा मानाय स्वाहा जीवन्नाय स्वाहा देष्यदे स्वाहा जगान्नाय स्वाहा जैकाय स्वाहा सम्मेलिक्ष्यते स्वाहा सम्मेलने स्वाहा सम्मेलिनाय स्वाहा स्वच्छ स्वाहा श्रुमदे स्वाहा भुक्ताय स्वाहा प्रबोक्षते स्वाहा प्रबुध्यमानाय स्वाहा प्रबुद्ध्याय स्वाहा जागरिष्ये स्वाहा जाग्रते स्वाहा जागरिताय स्वाहा शुश्रोषः alare swaranam bhagavah srayasah ritikagah swah ekaranah bharek sarasah raguhastane swah vijahanah swah ojranah swah nivachare swah vartamanah swah arthasah swah sarasah kshare swah kilah swah vidanikade स्वाहा विभोगन्मानाय स्वाहा विधोलाय स्वाहो प्रगच्छ स्वाहो क्रामुदे स्वाहो क्राहन्दाय स्वाहा चङ्क्रमिष्यते स्वाहा चक्रम्यमानाय स्वाहा संकमिता लक्ष्मे स्वाहालय चवित्कलो स्वाहावाजुरे स्वाहाभूया यस्वाहस्तवस्त्रिदस्य तव च हस्यवधित्यस्य हत्यमस्त्रिदस्य मन्धः देवानायामृतस्य नाम तत्सक्तेन्यत्वम् प्रजापतिरस्य हेदस्यम् वाजिनी नभ्यन्तर्येण विशोको विधानः कुपजयकर्यम् प्रसन्न गोपालिर्यः प्रयुग्मा ्रामभक्ष्यन्तभजं लोकमायं विद्वाकुं छक्ष्रा समासु हेतुभर्जमेव लोकेन सत्यं वैषब्दाक्षेताय भक्ताय एवं विद्वाकुंशब्दाक्रमासुरे साक्षादेव देवता अभ्यातोशब्दाषब्दामितवक्षकृय ृष्टं वत्फलम् देवं वत्सर एव प्रतिष्ठन् च त्रिशत्रकुन्तलाध्यान यद्धामलकुन्तलमको जगदायञ्च पोयादेव यज्ञाञ्चायेव समस्या फले पञ्चदशीं जयदेवावरं फले सप्तदशभवत्यन्नाभ्यत्यामरुद्यास ैव तेन जायन्त एव हि गुरुभवये प्रदेशोमेवात्मन्दे प्रमाभव जयश्चेत्तयस्य गुरुभवप्रदेशैते तोहनिधानेन भ्रात्रेण निग्रेभ्यञ्जभवदश्चैवदे भवदस्तु हर्षकदागत्य नमश्चां लोहनमुद्धाभवने प्रदेशे प्रान्तोयां चित्रायिभर्गोगश्च त्यायां शेषाः पन्थास्तमेवान्वान् यक् परिषज्य प्रतिष्ठां यच्छन्ति यदा कर्मञ्चदेकमुच्चारं तदा यः प्रहत्सेन्द्रियायश्व यदा सजगं रात्रयं गर्वञ्चदेकमुच्चारं कार्तनं यतो असौ लोकोदलोकमभिजयन्ति गजानीय एकमुत्थानम् तद्धितेऽर्थम् न्दावद्गावेण पान् सप्तरात्र महारेनावेदयावृन्दव ग्राम्या फलभक्तान पांशय एवं विद्वान् सप्तरात्रैलाव ग्राम्या फलभक्ताने बालं जय सप्तरात्रग्राम्या पदभक्त वयस्कावैश्वलं जय वञ्च जायते नवभवेन प्रदावैवात्यै महाप्रदमानन्नाक्षामरुध्ये विश्वज सर्वत्र भवत्याै प्रत्यक्षं प्रवोदयत्वेन प्रत्यक्ष गता शुद्धा भवति तेनोत्तमहश्च नैतरात्रश्च न स्यात् गृहप्रोर्वे प्रहस्तो वयम् दीयम् वा मरदम् तनभो गृहदाभ्यामेव नयम्भो अनयोरेव त्वजम् दिनप्रत्यक्षम् यत्त्वजवृक्षा वयम् दिगता त्रे जनकामेन ब्रह्मवश्चेत् कामिदयतमश्चे श्च भवत्य एवं विद्वानक्षरात्रयम्भवत्यस्येव भवत्यक्षरात्र भवत्यक्षायत्री गायत्रे ब्रह्मचरङ्गायश्वरप्रवेदक्षरप्रभांभवक्षदमवरुन्द्रे श्रवति त्यावरुद्ध्या स्वय कलिमुभव्यात्मन्ध्यत्रयत्रवदे त्रयत्रयु सर्वमदे प्रेत्रै पञ्चमीं स्वी प्रजावदय महाबलमानन्दा शक्त्यावरुद्धै स्वयत्सर्वविश्व भवति सर्वस्याभिरित्यै प्रजाभृजप्रजाता सृष्टाः कृपदाैलायनयभिः प्रजाः कृतं निगच्छे दृष्टिभिः नवराक्षेलिताः कृतं निगच्छाभ्य लोकान् न प्रेरितान् लबालानाम् फलाभ्यो गृप्पञ्चयस्तानि मे लोकान् धा नित्यरात्रेणैवकं कल्प नित्यरात्रेणान्तरिक्षञ्चरात्रे रामुन् लोके निसार्गुणैर्गुणमन्वश्चैवं लोकेन लोकं नेलं भावायज्ञो यद्गौरालिज्ञासभक्तो मां बाणवज्यो जलन्तरिक्तं गौरभाज्ञास्थं प्रजाना यामेस्या सर्वदा त्रेणैते प्राणाहि वा एतस्या एतश्च जोगमवेति प्राणामेव लोकयदेता भग्भवतिमेव प्राजाय प्रजाय जय वै राशो वात्रेण प्राजाभत्यो वा वेदविज्ञायक्ष ेवं विद्वान्दरा च हैले देवता वि रवीन्द्रो वैहुलं जयता विनायैत्तमं जामप्रजापीमाशरात्रं रागच्छयनाय वैभव्याभिदेवतामदभश्च एवं विद्वान्त च हैदय जामतमेव आत्मना ेव पुनश्च भवत्रो हे अक्षण पुनश्च भवति भवत्यात्मनामना श्रद्धाद्या भवत्वापत्यभवपत्युक्त्वा उपैत्यगणी रागं समभयन्द्रो नामाश्च मनस्ताश्च पञ्चनामित्रायश्रमलग्नि क्रमोतु भव ेणत्यमेवावलं जय सप्तवामत्रा यावत्यासुदेव प्रभव्यावलुभ्या भत्रैव विषमुख्यौरेण प्रेक्षाय सप्त स्वराज्य प्रामुख्या यावत्यासो महव्यभुमहवैवगच्छयित्र नवाज्य कामाभविन्द्रय रवेश्वर्येश प्रदेक्षे विश्वज तत्त्वा भवनि मनवश्चाभिविद्य भावे प्रजाकाराः प्रजान्तामिन्दन्तयन्त प्रजाुन्देमे प्रजामन्देवे प्रजां विन्देव प्रजावन्त प्रामेतमेकादशरात्मगच्छन्तमाहरन्तेनायन्त सभावे प्रजामदयन्त प्रजाभवानन्त प्रजामविन्दन्त प्रजावन्त भवन्त भवन्त समानामास्तमत्वम् वादाच्यन्ते एवं विद्वागुण्ड एकादशः समासरे प्रजामेव प्रजाभयं प्रजां विन्दे प्रजाबन्वन् निर्ज्योदन विराभव निर्ज्योदेव भवत्सादेवैरेवन्ते यत् म् ब्रह्मभवत् च गङ्गायत्रियामेव ब्रह्मभवत्सन्दे रश्च भवनिरश्चिवं दुरक्षरा चक्रेन्द्रियं गच्छुभ्य वेन्द्रे प्रक्षाय छात्रां जवत्यं दुरक्षराजा भवनि गत्यामेव प्रयच्छन् दे कालः प्रभवलि पञ्चमाय भवन प्रजा परिगृहेत्य त्राणाम् गन्धे भाच्यतामयथा पूर्वम् फलाकर्कैरञज्ञस्तवेदक्षमनः फलाक्षर्पञ्च यज्ञस्यागक्षमभगल्पञ्चयथा पूर्वमेव फलाक्षकै जलज्ञायागुम् कङ्कनीत्यैन्द्रवायमात्रा गन्धे राजामजागरप्रायेण्या भगति प्राणवत्राणैवेन ीरे दत्ताना बाणः बाणे व्यक्सन् के गेशाहम् नेक्षितानाम् प्रमीगणे प्राणापालौ विद्रावधौ प्राणापाणागेवन्तास्य गृह्मेतानुजामरामस्य नवमे देवानामानुजामरूपस्यैव ग्रम्परिणेतामस्वि नारेतस्य देवताग्रानुवरतादेवे न ग्रम्परितशुक्राग्रान्मेतगतस्यैच्छागामौ वहाक्रुक्रेदन्तं मनस्क्रिये गानिवस्तवान् समारप च पाकीरान् भवनिवन्ध्यक्रान् गृह्मेदात्तवान् ं माने सत्यन्वन् भात्रं वत्सेवेन ग्रामेण नाटगाख्यमाक्षत्याग्रेणाग्रा ग्रन्थे दयुश्च पिता भितर्यमाण सर्वेणपात्राणान्द्रियैरक्षपात्रगौ सर्वेणैवेनमिन्द्रियेणाधिप्रियं च नभिक्षेतव्याद्वे शरद्वये वा शैवेन प्रियं चै माय प्राञ्जनाभिन्मेन स्याहच्चौ क्षत्राञ्जनाय नैव च भक्षेत्राय रक्षय भवत्रा गन्धे यादावयामि प्राणान् एतस्य सुगच्छामि प्राणाग्रहाः प्राणामेवास्तु हितोमञ्जत्रयताभवो यात्रि पद्यं ज्ञानवर्भेः प्राणान्वालिः प्रजानादुषुश्चनवर्हरि प्राणाग्रहाः प्राणामेव प्रजानागुरु हितो मञ्जलितारप्रवरिभते गतो रायैन्द्रायोगायत्वम् प्राहि नैव महस्तैन्द्रायो दृश्यते त्वयवेन मायनमे गन्नादित्रैश्व भवेद प्रत्यैश्व हस्तप्रोदिष्यते स्वयवेन मायनमे गन्नादिजागतो जागदन् त्रिनेयमहस्तोदिश्यते स्वयवेन मारितलेगन्धा यज्ञमा रज्यन् आगत्य आत्मोराः यज्ञमुदय पुनः प्रयञ्जय जगन्म भो वे द्वितीयस्य सप्तेऽहन्नाथेनो यच्छ एव मायतन्दो नन्देनासन्दरो वा यो हासन्तरं पञ्चम महस्तस्मात् पञ्चमेऽहन्नैन्द्रवायवो नृत्यदेष्व एवेन मायतन्दाजपालोमे शुक्रो मार्गदुषमहस्तमं शुक्रो यश्वन माघलैलद्वयद्वीयं यज्ञमालज्यण्डाल्याश्वक्यदेयत्रयज्ञमदि चन्दन एव पुनः प्रयुञ्जय प्रत्युङ्गभागे श्रीयस्त्रिणा सत्यशुक्लय सप्तमेहं शुक्र लैक्येष्टगेवण मागनैगन्नाष्टन्दोरवैव ेन वायुदय ग्रन्थादिक् प्राणो नेन्द्रराय प्राणोहस्तवन्द्रेन्द्रायवत्येष्म एव वायुदलय ग्रन्थाख्येजद्वे तृतीयं यज्ञला गच्छन्दाग्रात्मो दिगरेन्द्रायवस्म निश्चत्रैव नित्यवदन्त एवम्पुङ्के स्वमेव चन्दोन परियावश्चन्द्रौभागे चेशेण in thy heart न्दवाहेशेन्द्रियश्च समेहन्नेन्द्रवायवास्यैवान्दं गापसान्थामकयन्त्यं महन्तेव दक्षन्नागश्च न्योम यत्र लोगमभ्यध्यायन्तान्यैते नैव देवाद्य वाहयन्तेन्द्रवायवश्च वा एकदायश्च महत्तस्य नाग्रेणायश्चनाग्रेण ममेण नैन्द्रवायव निश्च्यते शुक्रश्चाय नागरम तस्मिन्नैवायव निश्च्यते अस्मादन्द्रवायवश्चायदने सप्तमेहं शक्रोदिष्टेणश्चेदनागिन यच्छमः तस्मिन् शुक्रोदिश्यदे अस्मा शुक्रश्चायने अष्टमेहन्नाग्रेणो लिक्ष्यदे छन्द्रागत्येव लज्जवाह यदिप्लवश्च वा निवाहवाहात्मो दे एवं मेधासो देवदा आद्ये strength and strength as <laughs> well in your approach प्रजापजनकामय त प्रजाय ये जलयसन्द्वानसः प्रमपश्चयेन प्राजाय दयः कामय त प्रजाय ये जगत्वादः श्रयणय ुषीयैस्तावज्जनकले प्रतिदशयो गायत्रीन् जोतिपक्षां वैज्योतितावश्ये कामोदौ पक्षौ जयन्तरे गायत्री पक्षादि एवं वेद्योजासु वर्गल् लोकमे प्रजापधर्मादिशाधिकृतद्वादशरात्रौ तव पक्षो यन्तेश्च उच्चात्मा प्रजापधर्मा वेशाने सत्यय श्रो निनामे दक्षाणामेव प्रजानाम् प्राणीना सुमासुस्मास्तैत शक्ति रेत्रना मोचितो समदिदेव वंदना ेष्यता वेष्वालनस्वर्गाय लोकाय प्रापदो ध्वेशः हे देवायम्वालम् परियो हन् स्वर्गस्तु लोकस्य प्रभोण प्रजापतिमयाच्वादश्वालि भवान् प्रक्षि एवम् विद्वान् राजपाहेन गतगेते भवन्तायत्रायश्चेष्म ैन्द्रं प्रजाप जलगाजगत्सो मायन्द्रयिन्द्रभक्तस्मा राहुलालजा वरस्य यज्ञै कैश वै गुणवमस्तिकस्त्वकृत गृह्णादि पुरुषगु नवमस्व नवं नो नैत्यै नैणान्नमलञ्जागतगे वैतयो वै प्रजापतिलार्ध भिजाय जय शृद्धावानेव चित्रस्य प्रथमा यज्ञन्ताधिष्ठिघा द्वितीया यज्ञन्ताधिनाथमैरा श्रेया पात्राणि दुःखेन पिताधिनात्मानमन्दरस्तु ग्रन्धरे गो वा अस्य पशुमध्यभागम् च गुन्ध्वाच्चशम् भक्त्यक्षगोषय परिपापम् पुरे जगोषय आर्यम् भज्या न गोषयस्व भज्यत्वयगुष्व विहव अस्य दीय्यायश्व प्रतिग्रन्थादिगो द्वारदाहे प्रतिग्रन्थादिक ekasmeha maha dadara saha tadataha dukkata vanyadaha adhyasaha sadhyasaha adha jaha namaghasaha sadhyasaha ekadadhyasaha advarasaha yo sadhyasaha tadadhyasaha vajradhyasaha nara sadhyasaha tattara sadhyasaha sadhyasaha nanu sadhyasaha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 भ्यभे स्वाहा त्रिभ्यक्ताः पञ्चभ्यस्ताः सप्तभ्यस्ताः नवभ्यस्ताहैकादशभ्यस्ताः त्रयोदशभ्यस्ताः पञ्चदशभ्यस्ताः सप्तदशभ्यस्ताहै कान्नै स्वाहा नवविवंशक्षे स्वाहैकान्न चत्वारिवंशते स्वाहा नवचत्वारि विंशते स्वाहै कान्नरस्यै स्वाहा नवदक्षे े स्वाहा नवाजेत्ये स्वाहैकान्न सदाय स्वाहा सदाय स्वाहा सर्वस्मै स्वाहा Haagya sallaha, dhudhyas tahha, <laughs> njhah tahha, tcham tahha, njhah tahha, njhah tahha, kwaadha njhah tahha, uudhudham tahha, oudham tahha, tahha, njhah tahha, uudhah tahha, tchana vah tahha, raya tahha, varma tahha, षभ्यत्राः पञ्चभ्यत्राः सप्तभ्यत्राः नवभ्यत्रा एकादशभ्यत्राः त्रयदशभ्यकाः पञ्चदशभ्यत्राः सप्तदशभ्यत्रा एकान्यशत्ये स्वाहा नवविवशत्ये स्वाहैकान्नचत्वारिविंशते स्वाहा नवचत्वारिवशे स्वाहै कान्ने स्वाहा नवश्ये स्वाहै कान्नाभेत्ये स्वाहा नवाभेत्ये स्वाहे अदराय स्वाहा अदराय स्वाहा धर्मस्नेह स्वाहा चतुर्भुज स्वाहा दशभुज स्वाहा द्वादश स्वाहा गुणच्छे स्वाहा नवकये स्वाहा नय स्वाहा धर्मस्नेह स्वाहा पञ्चभ्यक्त्वाः दशभ्यत्वाः पञ्चदशभ्यक्त्वाः विरोधस्ये स्वाहा पञ्चलवत्ये स्वाहा शाय स्वाहा सर्वस्मै स्वाहा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 panjagesa swaha swaha dabagudana pragasva swaha vipanasa swaha rukhepana swaha panjagesa swaha raggasva swaha sujepana swaha tadgesa swaha navaggesa swaha astra swaha vakthesa स्वाहाय स्मः हिलाय स्वाहाय स्वाहाय स्मः स्वाहाय स्वाहा सुमद्राय स्वाहा मध्याय स्वाहाय स्वाहाय स्वाहो हृदय स्वाहा स्वाहोदय स्वाहो स्वाहो गिलाय स्वाहा सुमर्गाय स्वाहार्गाय स्वाहा सर्वस्मै स्वाहा यन्गच्छ समहप्पामही योगमागेतेन भवन्ति यमहत्यो मेदामत्मजिगच्छन्त्य समेहं न विभाग्यमुपहन्य सहीयतेजस्यैलोपहता योग्याहतमे मान्तु न विभाग्यमुपहता ये देवास्तुर्गल् लोकमायज्ञानयञ्च यत्कल्पे यज्ञप्रसम्रासरु यत्प्रयो वेदमेवासुरेषेकमस्तु विप्रोयङ्कृविन्दयच्छिना कृत्यं चिक्षमेव समावेदस्तत्पदाज्ञान ज्ञेयस्वाङ्किञ्चार्चन्तिर्मनुवाय मास्तमय विमनः परिभव सुमनब्रह्मपदं विपरिमिता बालकफलविदायिना ैवाम्ब्रम् वरत्रविरकक्षे जत्रविवरः ्रह्मलादिमावदन्ति किंसामस्य ऋतुफलो पञ्चमेने पञ्चिमुखे ऋषो सप्त सप्तमधातुषत्व ऋकिमक्षमेणे छष्टाख्यायत्येव लिखिम् न मेने samadha gatta ure kenda samaya na sadana ira tapai meka sadana te kala sadana tatvani kila sadana rkala sadana jagade devitta tadva astya uradasyavadeva sadenaam bente ेदश हरिगत्व प्रथमो ैदाहस्तान् चन्दर्यन्मध्ये वदाभुराभिवलेवाचानुमलक्षाक्षम् लोमाणां महाब्रतम् कुर्वन्ति सञ्चदाभेभवान्धरेभवयो वेदं लोन्नम् महा व्रतङ्गाक्षं लोमाना अम् महा व्रतम् कुर्वन्ति वसितदेवान्नाद्यन्ते दित्याकामयन्भयोम् लोकयोर्गामे चतुर्दश आश्रमख्यन्तरन्द्रावेणयो लोकयोराभ्रमम् षट्कश्चावक्षङ्कश्च एवम् विद्वादुषस्यश्रमास उभयोरेव लोकयोर्षत्रेङ्कश्चामुक्ल्यश्च राष्ट्रभवनि सप्तग्राङ्गोषे सप्तार्याभये रामवृध्येयस्वराजेनानिमित्तानि भव ैवलेयम् लोकमभिनयन्ति यत्त्वेन वृक्षानि भवन्ति लोकमभिनयन्त्यम्राज्यभैव राजो भवतो राजानाम् भवत्य रात्रावहितो भवतः परिगृहीत्यै प्रजापतिस्तु वर्गं लोकमेत्यं देवान् वा यन्तानात्याश्च भजवत्यान् वागन्ते देवाग्रमणिगाश्च प्रत्यहन्ता पृच्छेतु वर्गं लोकवान वहन्त्यामत्रं लोके भगवन् प्रत्योहन् वृक्षे नत्यावल् लोकाभवन्तं लोके भजभोगेवागु सख्यत मास रघुभयोदेव लोकयोज्यामत्यैक्यश्च वृक्षैरेवावत्यं लोक्याभक्तं लोके ज्यो जगौरायभीरं राज्यभारिमानेव लोकान्तेन वैज्ञश्च मध्ये वृक्षानि भवन्ति सर्वसत्त्वायो वैर्वेर्यं वृक्षान्योजगेव वीर्यं मध्यकौले तदा हं चिगेव राजेनानि वृक्षाञ्जवयं च प्रत्य न्दम् लिलादेवान्नाढ्यमवन्द प्रतिनो विक्रियमाभिन भव ैं देवदाभिराधेत्तरं श्यावदमगच्छावत्मानेकं पञ्चदशरात्रं प्रायक्षस्तमापदनायेवदावदमगच्छस्य एवं विद्यागुण्ठ पञ्चदश आत्मनादरे जातमेवमात्मना भ्यागुरुलेन गच्छन् निज्यो निर्गौलायुत्रयं मानज्योजकं गौरसामायमलोके प्रयच्छ न्तामा भवञ्च सप्तम् जैमता एव वृक्षेभयन्त्यम् वृक्षानि भगवत्सन्तामाजेवञ्जि पञ्चदश पञ्चलो वज्रावच्रमेव भ्यादुर्येभ्यक्तः रञ्जलिलाच्छाभिता भवदैन्द्रियश्च वै विहेत्यै ेषिवा प्रस्थितः सप्रलाप नि पञ्चदश आत्मम् प्रायच्छेनागुरान् पराभाव्य विलिक्ष्येव लक्षात्मान निरभवनमिन्द्रियम् एक्यमात् पञ्चसत्र पञ्चदश आत्ममासय धादुर्गामेव पराभाव्य विलिष्टे लक्षं लक्ष्यपात्मानव्य पञ्चदशास्त्रयणौ जाबलं वयं जेमात् पञ्चदश एतामेव्याः पञ्चदशाधमासत्करात्रयार्थमाधनस्थं वर्धना प्रभ्यामेतामेव सुमज्ञाः पञ्चदशमाध्यमासत्करात्रया समाधस्थं मत्करात्रौ यज्ञौ राजे भवन्ति चोदिकं मध्ये प्रतिष्ठन्त्य वरि गे ते प्रजापदयकामयतां नादस्याव सप्तदश रात्रोत्तमाहदश रामेशोहं नादाशभक्त्य एवं विद्यायोषसप्तदश रात्रमासेन पञ्चाहारं वत्रं वत्फलेन फले सत्यं मावेदज्ञलसं रामे रामाभवन् सत्यं नैव ेव वृक्षेरवम् एवमेन लोमेवेद्यम् वृक्षाय प्रसवत्सन् दोनाभो येद्य सप्तरसहात्मो भवति सप्त सजापति प्रजापदे भवतोन्नाद्ये ्रमज्यादिष्टब्रह्मनादेव भयगुं संवृञ्जय ब्रह्मजान् मञ्च विषये सरि गौरात्रेण वक्रन्दोवैकयगुं प्रञ्जन ब्रह्मजान् मञ्च ब्रह्मवशिणाताभवने आसभयमेव संव्रञ्जलय ब्रह्मजान् पञ्च ब्रह्मवक्षिणो नाताभवन् निय विराजोभयोना त्याङ्गुलो नैव पुरुषस्तमाप्तान् योजगौराहा भवन्तिमानेव लोकानभ्यारो हन्त भवन्त हिनः पृष्ठनि मध्यतानि भवन्ति लौक्यं जगनाहं परिष्ठन्त्य राष्ट्रा भवदा ब्रह्मवच्छान्नाश्यक्ष्यपरिगृहे ेष्टम् दैवात् पृच्छे परेत्य तु वर्गम् लोकभगमयम् परे नमस्तात् स्वर्गन्धम् प्रत्यस्थापयम् परे असामाधित्यम् लोके हैलिगृहे लोके पृष्ठायफलम् लौकम् जले नमस्तात् परिग्रन्थन् जागेन्द्रेण ञ सुमर्गान् लाकान् व्यक्पक्तान्यस्य प्रजालक्षिनोजवागेत्यं वरसामाना भवन्ति सुमर्गेयवेदान्तरिग्रन्थं जैमाना वैर्वागे त्रिं दम्बरसामानाभिनोजवागेत्यं वरस्यामाना भवन्ति भजरभं च लिखं वेदिमागे भवन्ति पृष्ठं पाश्च भोजस्थालित्यन्द्रे भोजु त्वन्दलप्रयोगाय भक्त्य लिख्यन्द्रे सप्तवेजेयाचीनानि वृत्तानि भवन्त्य लोकं न प्रत्यमलो हे हृद्वाद्यमाधीयनानि वृक्षानि भवन्ति मे लोकं प्रत्यमरोहन्तरे राष्ट्रं नागच्छमाहरफुयाजनप्रतिष्ठिता सुक्यधेन भयजं जनाः पञ्चतवत् तेने लोकाः आवाणि श्रेयः कुर्वन्ति तान् तोरेव लोक्स्से ैकविन्दायच्छकविनूदलोचयदेकविगुश्रम्बष्ठा चैक विपुंसम्भै अग्मान्यज्ञ्रामसमस्तामरे पुरोहितः सत्ययण्डत्वेन सेना सङ्ग्रामरामहे ब्राह्मणा निश्चेण वक्टमुपदेहुवे समाहम् संशयञ्जयम् प्रजाम् प्रशो त्रैषाम् तानि सत्यास्तु ने प्रयानुकविना वासुषामञ्जयसुवः अग्निनेन्द्रेण प्रत्याविश्वना देवताभिः काद्यानुवाच्याभ्यामुपदेहवेदभाम् ेषाम् यज्ञाम् हेमान् श्रेन्द्रानुपदेहुवेश रामभग्यमुखान् समवतो O haan-panjyam puri shen vresa hanu vresa vresa vresa hanu raya kee shri shakshiri vresa hanu apkudangyul jay shunjal vresa hanu anjir bhagastorya vresa hanu pradongja eropano vresa hanu ondengir vresa hanu kudana trafosca vresa hanu apkudangir vresa vresa hanu apkudunbhovastuvar vresa hanana. भवन्तस्य वा भो मात्र सुभनामाभिरञ्जनप्रज्जनाभो <laughs> नामाख्येन अञ्चिनाथपुवन्दभवद्वाचारम्भमयिना गोपानुवादेशे प्रियाङ्गा सोमा भ स्वाहाभिमाभि स्वाहा स्वाहाभि स्वाहा स्वाहाणप्रजावर्य स्वाहागार स्वाहाग्रे स्वाहा स्वाहादित्ये स्वाहादित्ये वक्षे स्वाहा नित्ये स्वदेशाय स्वाहाद सत्ये स्वाहाद सत्ये दृत्यये स्वाहाय स्वाहा गोष्ठे स्वाहा गोष्ठ प्रत्याय स्वाहा गोष्ठय स्वाहा सत्कृत्कैः सत्कृतेवैत्स्वाः तस्य वरलोकार्त्तः हारिच्रेत्स्वाः तस्य पुण्यवायत्स्वाः चलेन भूयमात्स्वाः बलमस्मेत्स्वाः dad gamaharo gadspahta adarasa gadspahta navinagya gadspahta kshedra gadspahta karna gadspahta varikala kedapakshata varikala pare gadpakshata retcha gadspahta rupdani gadspahta urdhe क्षायत्राः केवाः कङ्गः भाः वृक्षे धः लायस्या यत्ताः वागृताः गुरुषा जागृताः दोषध्यागृताः लाहोभ्यागताः इङ्ग्रा जागृताः श्रोरे जागृता लोहुभ्यागताः jagatsa <laughs> bhujetsa harbinda jagatsa vardana itsahanda jagatsa hevaritaha sarva bhutesu swaha Om nadeyaya swaha nrakhaya swaha jivaya swaha mahiraya swaha praya swaha chakaya swaha prakarna swaha yachaya swaha rishire swaha dipate swaha arthakamaka swaha andaya swaha ramaya swaha dikre swaha uridaya swaha rigaaya swaha hedaya swaha Om gam ganapataye namaha Om gam ganapataye namaha Om gam ganapataye namaha Om gam ganapataye namaha Om gam ganapataye namaha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 सः हरो वस्ते सः ओ हि गच्छामहे सः तुले हि सः कान्दे हि सः वृजे हि सः उच्ये हि सः भने हि सः विये हि सः गृहे हि सः वन्ने हि सः शरणे हि सः अदप्ते स्वाहा हरे फले भ्रष्टाः भूय भ्रष्टाः भूरे जाः स्कन्द्रः शाखा भट्टाः भक्ताः पुत्रे भट्टाः फले भट् लीरे भाः लीरे भट्टाः वन्य भाः गृहे भक्ताः लिखायुक्ताः हरि दिक्षा याः हरि दृष्टा यत्ताः शिक्षा युक्ताः शिक्षा युक्ताः लिखायुक्ताः शिक्षायुक्ताः परित्रा yastaha yastaha yastaha yastaha drvaskare swaha o ro ro त्रन्दीरं गच्छागच्छाङ्गं वित्रागुजरात्रन्द्रोधायद्गौराय भवन्धीरं वाय भवन्तं रामेतच्चलम् दामम् गच्छन्दामाभवन्तीजं राहराभ्यादेवयञ्च लोजो देव परिवृत्तन्ते देवैः जगालये श्रीरात्र विवंशत्फलस्त्वम् वत्फलस्त्वभर्गो लोकं वत्सरेव तु विवंशचक्र यत्रे गायत्रे धर्मवत्सङ्गायत्रीवत्क्षदम धर्मवत्सैत्यै तथा मे मनश्यादेवं देवाग्रामदुन्दे गामजन्दावत्यं वामानं मृत्यम महत्तदेवेकं प्रमुदरं गच्छे मे दे सञ्चलंसन्दमाहरञ्जयना इदन्ती देवत्यं वात्युमहत्तदेवेकं करुपरमगच्छं मृत्त्वाकं सत्यंशलरात्रमासुदेवत्येव महच्च प्रियं गच्छन्ति विश्वदैवेगं समुद्रमगच्छं निं गं राष्टमासवेकं वत्सरमेव प्रविष्टवत्सरेकु शङ्करङ्गत्रं जय जय देवंशास्ता भवयत्रय श्रिंसा परश्चात्रयत्रिगुञैरेव भगतौ गच्छन्ताश्चेगं धनुद्रं मध्यलो गच्छन्ति भिट् ध्याये चतुर्वञ्चकत्रयत्रयजं पञ्चावध्यै भवनि भवन्तोद्धाश्चन्द्रोभाध्यागुम चाणेन चन्द्रान्द्रा वा भवन्तय वृक्षै वधुरश्चन्द्रमाधुर यस्य त्रिंशा अवस्थानः भवन्तः समश्च विवराध्यान्त्य भवान् सन्देत्यां लोकयन् विवराः ैव लक्ष्यन्दोकमध्या एव राजेना प्रत्याभवान् चयन्ताय रक्षया जयन्द्रोश्रवस्थो ेव नायत्रैव वृक्षा वाकाले भगवदेव नैवजायन्द प्रजयान् च नाम गत्रिमेवात्रं धृत्वानन्दानं गच्छन्ति प्रदेशो भवते योगे चेवा प्रयच्छादौ भवन्ति एवं विद्वांशात्कृष्टं वत्सर एव प्रतिष्ठानि देवताब्जा ी लोकान्ति प्रदक्षन्ता भवन्ति रत्सायक्तांगेयन् यम् च केशोद्भ्या कुप्ताश्च भवन्ति कृप्ता एव सुकर्कम् लोकय्यन् समयोकयो कर्तरे प्रपुंसरेखासश्च परिगृहेत्य प्रजावयत्ववर्गं लागवेत्तशं दशान्त भातृगुंसु भ्रात्येलवं भातृंसरा वक्षभारभ्य एव जन्दरा प्रजापतिमा भारवर्गं लागवान् निता भातृपुंसरेता भ्रातृंसरा वक्षभारषभ प्रजावयत्र एव जन्वरा प्रजापतिमात्रा गच्छन् नित्ये Let us <laughs> get out of the love of God. यता भात्रे गच्छन्ति भवन्तो लोकान्यालभं त्यवलोक्याक्च्चाभया लोकयो चिग् मात्रिपुंसवेतां जिरालेनात्रे एव ध्यानुम् सुन्द्रोजन्ते आत्राभृतभवनः परिग्रे एवावज एव प्रपद्दास्तेव चेत् सिमुदस्ते नित्यं सतेत् सिमुदलोभमसेत आत्का देवदेवमदास्यरोहन्दे साकलगे प्रेयमद्धारोढा मलयधरो यत्स्य विद्धिवानीं भगति देना विद्धे धर्मिं च एवम नित्यं सगतस्यम सदा वासुरेति पापनां राजधर्मेण वर्तन्ते ह्भा योगाहेता सदैव अज्ञाह नरे कोहता ेवणीयं प्रास्पन्त्य वञ्चाः भवन्ति पञ्चवादाश्चैव ब्रह्मस्तरे प्रतिगच्छन्त्य भव पञ्चार्चनामन्यपान्तो नित्यमेवावलन्धते श्रेन्द्यास्थिलानि भवन्ति प्रेयमे लोकायै प्रेमलोके प्रतिगच्छन् च भवत् प्रेयमेक्षे येगा जना नेवावरं सदेवस्ययश्वरं न चकारल तेरवम वं भायदवश्चाविते सेवा स्वयस्वादव प्रस्ताना स्वदगाव प्रेरा हप्ताम पाजुमरेयो मदाम भाक्त्य वचतात्वान् रमं चप्ता नेमाशवम जनत्पादवइतात् ज्ञानवगावो महांतं पेरसा आत्रेण प्रजाविक्ष प्रजासु जयत् जगराष्ट्र भवति नुभवा उलङ्गश्वरोत्यर्थ्ये चाध्यासो ैवैकानाश्वत्रेणोत्तम् वित्रागं दत्तयत्रयम् शतमानकैषा प्रजा परिग्रहेत्यै मरम् च सुभर्गम् लोकमियावेधिते सुभर्गम् लोकं न प्राचानन्द सुभर्गम् लोकमायन्त एतौ यत्रात्रयनायकं च पदोलेणेषु भर्गम् लोकम् प्राचारं लोकमाय यष्माकं षक्षत्रिगुं झटाक्षवासरे सुभ्यमेव नुक्षामा भवन्ति प्रतिलक्षन्ति या भवन्ति दलस्नाक्षेण प्रतिष्ठन्ति गच्छन्दामाभवन् जगैनतावरं धरेणेकं वृक्षाय वचवस्त्रं नामा न्द्रजमार्चलास्तु जयदा समाचरे लोकस्य परिगृहे आग्रेक राम आदापत् गमयद विन्दे प्रजा भरणां दासां भगये गमिसुणे तमेकत्वां नपंषा सभासत् छत्थार्थेना इदसवे धोरिन्द्र प्रजा भगदो दासां वृद्धेवम जत्वां वंशेकत्वां नपंषा सभासत् विन्दनिदे जाभिभ्राजल्यान् भवन् यत्रयोगं तग्यक्षं शपञ्चदशा भवभ्राचर्येण भ्रक्तः शमभव शिव्रदेव देव्यन्ददशा भवन् चन्नः यस्यायं जृक्षवक्षत्रिवच्चैरेव प्रदक्षन् यद्वानरेकविमन्द्रफदयश्च अर्जुना भवन्ति विजेनाय भवन्ति चलङ्कारोक्षाताय प्रायमन्दोनाचप्राणाय शुकावाश्चयतायन्ते राजो वातान्नपञ्चासोरेवम् वित्रागौ एकस्तान्नपञ्चासुवासुरेभिराजमेव गच्छन् चन्नापवञ्चभिन्नस्य परिहेत्यै त्फलागरे कृष्णमानाय गात्रगायालेदम् मत्फलश्च भक्ते कृगेन चात्माय जयता गोहात्यम्बदधायवम् मत्फलमारे चन्द्रास्तं भाले दैवं वत्फलश्चाभिरेः सञ्जय एकाच्चगायान्ते क्रन्थयन्तनामायावतो भवले दैवं मत्फलश्चाभिरेः सञ्जय एकाच्चगायान्ते न्देन्दनामानभयेसे रन्धुकम्बा एतत्त्वं वर्तत्रैमाप्रभुफलयम् वर्तनेव निर्यायत्रामोन्नमासे रन्धुकम्बा एतत्सम्बद्धित्राभो अन्नमाप्रुफलेन वर्तनश्चनकालैर्याभवनि ौण्डं देशामेकाष्ठकायां श्रेष्ठं वचले देवैकाष्ठकान्तं कुर्वन् जनाम्भोगवक्षे लुत्याम्बले लोगभक्षम् माताभिलम्भ्यन्दे भोधभक्षमुचै सन्धिकामुच्चैक्षवोचदयो मनस्वयोः उच्चैन्धिताञ्चल्याने कीर्त्यपाला एते लोकय्यम् जिगे तत्र वयम् सहीन्द्र एव दीक्षादिहात्तावयम् च भजभ्यत्वाभ्याम् नवमारभ्यम् जित्वाभ्याम् जन्नाभ्यामदत्वाभ्याम् आगुम्बन्वाभ्यामक्षित्वाभ्याम् मज्जानवात्लक्षणम् वैतस्त्वत्सालक्षणान्यैतासवर्गम् लोकयन् दश काफलम् पवन्धरभ्या भवनहीनागुन्दवर्गम् लोकमयावेति ज प्रमोल क्यक्रगो <स्या> प्रसंग प्रसंग अच्यन्तं च करोति कलामद्भयक् चोमनो विरहि चिवन्ताय जीवित्तमम समवये निद्धोष्टमम एत् सोमन मुखं पुदये वत्तो कांपयन्तते विकृष्टना विनाद मलयम ह्यन्तय देरक्ता उरेच्छे दैनी नगो रिक्खगे विनादोनत् भक्त्वा वेलाकाज्य जयो बिनाक्तो कय जनसं बाहो जलं फलं मित्या ब्रह्मकार्याख्येन सर्जायन्ति यतो न ब्रह्म रामम् भगत्सम्बद्धदोविभेत्रेनाजामि